ॐ लुतादिविषहारिण्यै नमः ॐ एकाक्षरायै नमः ॐ एकमात्रायै नमः ॐ एकायै नमः ॐ एकैकनिष्ठिताय एक नमः ॐ ऐन्द्यै नमः ॐ ऐरावतारूढायै नमः ॐ अहिकामुष्मुकप्रदायै नमः ॐकारायै नमः ॐ औषध्यै नमः ॐ ऊताय नमः ॐ ऊतप्रोतनिवासिन्यै नमः ॐ और्भायै नमः ॐ औषधसम्पन्नाय नमः ॐ औपासनफलप्रदायै नमः ॐ अण्डमन्ध्यस्थितायै नमः ॐ अकारमनुरूपिण्यै विसर्गरूपिण्यै नमः ॐ कात्यायन्यै नमः ॐ कालरात्र्यै नमः ॐ कामाक्ष्यै नमः ॐ कामसुन्दर्यै नमः ॐ कमलाय नमः ॐ कामिन्यै नमः ॐ कान्ताय नमः ॐ कामदायै नमः ॐ कालकण्ठिन्यै नमः ॐ करिकुम्भस्तनभराय नमः ॐ करवीरसुभासिन्यै नमः ॐ कल्याण्यै नमः ॐ कुण्डलवत्यै नमः ॐ कुरुक्षेत्रनिवासिन्यै नमः ॐ कुरुविन्ददलाकाराय नमः ॐ कुण्डल्यै नमः ॐ कुमुदाललाय नमः ॐ कालजिह्वायै नमः ॐ करालास्याय नमः ॐ कालिकायै नमः ॐ कालरूपिण्यै नमः ॐ कामनीयगुणाय नमः ॐ कान्त्यै नमः ॐ कलाधाराय नमः ॐ कुमुद्वत्यै नमः ॐ कौशिक्यै नमः ॐ कमलाकाराय नमः ॐ कामचारप्रभिन्यै नमः ॐ कौमार्यै नमः ॐ करुणापाङ्ग्यै नमः ॐ ककुवन्तायै नमः ॐ करिप्रियाय नमः ॐ केशर्यै नमः ॐ केशवनुताय नमः ॐ कदम्बायै नमः ॐ कुसुमप्रियाय नमः ॐ कालिन्यै नमः ॐ कालिकाय नमः ॐ काञ्च्यै नमः ॐ कलशोद्भवसंस्तुताय नमः काममाताय नमः ॐ क्रतुमत्यै नमः ॐ कामरूपाय नमः ॐ कृपावत्यै नमः ॐ कुमार्यै नमः ॐ कुण्डनिलयाय नमः ॐ किरात्यै नमः ॐ कीरवाहनाय नमः ॐ कैकेय्यै नमः ॐ कोकिलापाय नमः ॐ केतकीकुसुमप्रियायै नमः ॐ कमण्डलूधराय नमः ॐ काल्यै नमः ॐ कर्मनिर्मूलकारिण्यै नमः ॐ कलहंसगत्यै नमः ॐ कक्षायै नमः ॐ कृतकौतुकमङ्गलाय नमः ॐ कस्तूरीतिलकायै नमः ॐ कमराय नमः ॐ करीन्द्रगमनायै नमः कुव्वै नमः ॐ कर्पूरलेपनायै नमः ॐ कृष्णाय नमः ॐ कपिलाय नमः ॐ कुहराश्रयायै नमः ॐ कूटस्थाय नमः ॐ कुधराय नमः ॐ कमराय नमः ॐ कुक्षिस्थाखिलविष्टपाय नमः ॐ खीटधराय नमः ॐ खर्वायै नमः ॐ खेचर्यै नमः ॐ खगवाहनाय नमः ॐ खवाङ्गधारिण्यै नमः ॐ ख ख्याताय नमः ॐ ख खगोराजोपरिस्थिताय नमः ॐ खन्यै नमः ॐ खर्जिराय नमः ॐ ख ख खाख्यानप्रदायिन्यै नमः ॐ खण्डेन्दुतिलकाय नमः ॐ गङ्गायै नमः ॐ गणेशगुहपूजिताय नमः ॐ गायत्र्यै नमः